वामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पदा न शृण्वन् नोतिभिः सीदसादनम् ओ गणानाम् त्वा गणपतिम् गणपतिगुम् हवामहे गणपतिमिति गणापतिम् हवामहे कविम् कविम् कवीनाम् कवीनामुपमश्रवस्तमम् उपमश्रवस्तममित्युपमश्रवः उपमश्र तमम् ज्येष्ठराजम् ब्रह्मणाम् ज्येष्ठराजमिति ज्येष्ठ राजम् ब्रह्मणाम् ब्रह्मणः ब्रह्मणस्पते पत आनः न शृण्वन्नोतिभिः कोतिभिः सीद कोतिभिः ज्योतिभिः सीदसादनम् सादनमिति सादनम् ओ कृष्णयजुर्वेदे प्रथमकाण्डे प्रथमप्रश्नप्रारम्भः ॐ जिषे त्वा त्वोर्जे ऊर्जे त्वा यवस्था स्थोपायवः उपायवस्था उपायव आयवः स्थदेवः देवो वः सविता सविता अर्पयतु श्रेष्ठतमाय श्रेष्ठतमाय कर्मणे श्रेष्ठतमायेति श्रेष्ठतमाय कर्मण आ अग्न्या देवभागम् देवभागमूर्जस्वतीः देवभागमिति देवभागम् ऊर्जस्वतीः पयस्वतीः पयस्वती प्रजावतीः प्रजावतीरनमीवाः प्रजावतीरिति प्रजावतीः अनमीवा यक्ष्माः यक्ष्मा मा वः हस्तेनः माघशकुंसः अघशकुंसो रुद्रस्य अघशकुम्स इत्यघाशकुंसः रुद्रस्य हेतिः हे, हेतिः परि परिवह वो वृणक्तो वृणक्तोध्रुवाः अस्मिन् अस्मिन गोपतौ गोपतौ स्यात गोपताविधि गोपतौ बख्वी स्यात बह्वीः बह्वीर्यजमानस्य यजमानस्य पशून् पशून् पाहि पाहीति पाहि यज्ञस्य घोषद गोशद, घोषदसि असि प्रत्युष्टम् प्रत्युष्टम् रक्षः प्रत्युष्टमिति प्रती उष्टम् रक्षः प्रत्युष्टाः प्रत्युष्टा अरातयः प्रत्युष्टा इति प्रती उष्टाः अरातयः प्रा प्रेयम् इयमगात् रगाद्धिषणाः बर्हिरच्छ अच्छमनुना मनुना कृता कृता स्वधया स्वधया वितष्टा स्वधये दिःस्रधया वितष्टा वहन्ति कवयः कवयः पुरस्तात् पुरस्ताद्देवेभ्यः देवेभ्यो देवे जुष्टमिह इह बर्हिः बर्हिरासदे आसदे देवानाम् आसद इत्यासदे देवानाम् परिश्रोतम् परिश्रोतमसि परिश्रूतमिति परिसूतम् असि वर्षवृद्धम् वर्षवृद्धमसि वर्षवृद्धमिति वरुषा वृद्धम् असि देवबर्हिः देवबर्हिर्मा देव बर्हिः मात्वा स्वान्वक् अन्वङ्मा मातिर्यक् तिर्यक्पर्व पर्वते ते प्राध्यासमाच्छेत्ता माच्छेत्ताते आच्छेत्तेत्याेत्ता ते मारिषम् विषम् देवबर्हिः देवबरिः शतवलुषम् देवबरिति देवद्बर्हिः शतवलषम्वि शतवलषमिति शतावलषम् विरोह रोहसहस्रवलषाः सहस्रवलशावि सहस्रवलषा इति सहस्रवलषाः विभयम् वयगम् रुहेम रुहेम पृथिव्याः पृथिव्याः सम्भृजः सम्भृजः पाहि सम्भृज पाहि सुसम्भृता सुसम्भृता त्वा सुसम्भृतेति सुसम्भृता सम् सम्भरामि भराम्यदित्यै अदित्यैरास्ना रास्नासि असीन्द्राण्यै इन्द्राण्यै सन्नहनम् सन्नहनम् पूषा सन्नहनमिति सन्नहनम् पूषाते ते ग्रन्थिम् ग्रन्थिम् ग्रथ्नातु ग्रथ्नातु सः स ते ते, ग्रंधिं, ग्रंधिं ग्रत्ना तु, ग्रत्ना तु ते मा स्थात् दिन्द्रस्य इन्द्रस्य त्वाबाहुभ्याम् बाहुभ्यामुत् बाहुभ्यामिति बाहोऽभ्याम् उद्यच्छे यच्छे बृहस्पतेः बृहस्पतेर्मूर्धा मूर्धा हरामि हराम्युरो उर्वन्तरिक्षम् अन्तरिक्षमनो अन्विः इह देवङ्गमम् देवङ्गममसि देवम् गममिति देवम् गमम् असीत्यसि श्रृंध्वम् दैव्याय दैव्याय कर्मणे कर्मणे देवयज्ञायै देवयज्ञायै मातरिश्वनः देवयज्ञाय इति देवयज्ञायै मातरिश्वनो घर्मः घर्मोऽसि असिद्योः द्यौरसि असि पृथिवी पृथिव्यसि असि विश्वधायाः विश्वधाया असि विश्वधाया इति विश्राधायाः असि परमेण परमेण धाम्ना धाम्ना दृगम्हस्व दृग्ह्मस्व मा ह्वाः पवित्रमसि असि शतधारम् शतधारम् वसूनाम् शतधारमिति शतधारम् वसूनाम् पवित्रमसि असि सहस्रधारम् सहस्रधारगम् हुतः सहस्रधारमिति सहस्राधारम् हुत स्तोकः स्तोको हुतः हुतो द्रप्सः द्रप्सोग्नये अग्नये बृहते बृहते नाकाय नाकाय स्वाहा स्वाहाद्या वा द्यावापृथिवेभ्यामिति द्यावा पृथिवीभ्या सा विश्वायुः विश्वायुः सा विश्वायुरिति विश्व आयुः सा विश्वव्यचाः विश्वव्यचाः सा विश्वव्यच इति विश्वाव्यचाः सा विश्वकर्मा विश्वकर्मा विश्वकर्मेति विश्वकर्मा सम्पृच्छध्वम् पृच्यध्वमृतावरीः कृतावरीरोर्मिणीः कृतावरीरित्रिदावरीः ऊर्मिणेर्मधुमत्तमाः मधुमत्तमा मन्द्राः मधुमत्तमा इति मधुमदेत्तमाः मन्द्राधनस्य धनस्य सातये सातये सोमेन सोमेन त्वा त्वा इन्द्राय दधि दधि विष्णोः हव्यम् विष्णो इति विष्णोः हव्यगुं रक्षस्स रक्षस्वेति रक्षस्व कर्मणे वाम् वाम् देवेभ्यः देवेभ्यः शकेयम् शकेयम् रक्षः प्रत्युष्टमिति प्रतीष्टम् रक्षः प्रत्युष्टाः अरातयोधूः धूरसि असि धूर्व धोर्वधोर्वन्तम् धोर्वन्तम् धूर्व धोर्वतम् तञ यः योऽस्मान् अस्मान् धोर्वति धोर्वतितम् तम् धोर्व धोर्वजम् यम् वयम् वयम् धोर्वामः धोर्वामस्त्वम् त्वम् देवाना असि सस्मितमम् सस्मितमम् वप्रितमम् सस्मितममिति सस्नीतमम् पप्रितमम् जुष्टतमम् पप्रितममिति पप्रीतमम् जुष्टतमम् वह्नितमम् जुष्टतममिति अहृतमसि असि हविर्धानम् दृगुंहस्व हविर्धानमिति हविः धानम् नृगुंहस्व मा ह्वाः क्वार्मित्रस्य मित्रस्य त्वा त्वाचक्षुषा चक्षुषाप्रेक्षे ये क्षेमा मा, मा भे, त्वाहिगुं सिषम् हिगुंसिषमुरु उरुवाताय वाताय देवस्य देवस्य त्वा त्वा सवितुः प्रसवे प्रसवेश्विनोः प्रसव इति प्रासवे अश्विनोर्बाहुभ्याम् बाहुभ्याम् पूष्णः बाहुभ्यामिति बाहोभ्याम् उष्णोहस्ताभ्याम् हस्ताभ्यामर्दके अर्दये दुष्टम् दुष्टग्निः निर्वपामि उपामव्यग्नीसोमाभ्याम् अग्नीशोमाभ्यामिदम् अग्नीशोमाभ्यामित्यग्नीसोमाभ्याम् इदम् देवानाम् देवानामिदम् इदमु पुनः नः सः सह स्फात्यै स्फात्यी त्वा नाराती त्रीसुवः सुवरभि अभिवि विख्येषम् खेषम् वैश्वानरम् वैश्वानरम् ज्योतिः ज्योतिर्दृगम्हन्ताम् दृगुम्हन्ताम् दुर्याः दुर्याद्यावापृथिव्योः द्यावापृथिव्यो गुरो द्यावापृथिव्यो लितिद्यावापृथिव्योः उर्वान्तरिक्षम् अन्तरिक्षमलो अन्विः इह्यनित्याःत्यास्त्वाोपस्थे उपस्थे साधयामि उपस्थैत्युपास्थे साधयाम्यग्ने अग्ने हव्यम् हव्यगम् रक्षस्व रक्षस्वेति रक्षस्व देवो वः सविता सवितोत् उत्पुनात् पुनात्वच्छिद्रेण अच्छिद्रेण पवित्रेण पवित्रेणवसोः वसोः सूर्यस्य सूर्यस्य रश्मिभिः रश्मिभिरापः रश्मिभिरिति रश्मीभिः आपो देवीः देवीरग्रे पुवः अग्रे पुवो अग्रे गुवः अग्रे पुव इत्यग्रे पुवः अग्रे गुवोऽग्रे अग्रे गुव इत्यग्रे अग्रे यज्ञपतिम् यज्ञपतिम् धत्त यज्ञपतिमिति यज्ञपतिम् धत्तविश्वान् विश्वानिन्द्रः इन्द्रावृणीत अवृणीतवृत्रतूर्ये वृत्रतूर्ये यूयम् वृत्रतोर्यैकिवृत्र तूर्ये यूयमिन्द्रम् इन्द्रमवृणीध्वम् अवृणीध्वम् वृत्रतोर्ये वृत्रतोर्ये प्रोक्षिताः वृत्रतोर्यैकर्वृत्र <थी>… तूर्ये प्रोक्षितास्थ प्रोक्षिता इति प्र उक्षिताः स्थाग्नये अग्नयेवः गो जुष्टम् जुष्टम् प्रोक्षामि वृक्षाम्यग्नीषोमाभ्याम् अग्नीषोमाभ्याकुम् शुन्ध्वम् अग्नीशोमाभ्यामित्यग्नी सोमाभ्याम् शृन्धध्वम् दैव्याय दैव्याय कर्मणे कर्मणे देवयज्ञायै देवयज्ञ्याया अवधूतम् देवयज्ञाया इति देवयज्ञ्यायी अवधूतकम् रक्षः अवधूतमित्यवधूतम् रक्षोऽवधूताः अवधूता अरातयः अवधूता इत्यवधूताः अरातयोदित्याः अदित्यास्त्वग् त्वगसि असि प्रति प्रतित्वा पृथिवी पृथिवीवेत्तो वेत्त्वधिश्रवणम् अधिशवणमसि अधिशवणमित्यधिश्रवणम् असि वानस्पत्यम् वानस्पत्यम् प्रति प्रदित्वादित्याः अदित्यास्त्वग् त्वग् वेत्तो वेत्त्वग्नेः अग्नेस्तनोः स्तनोरसि असि वाचः वाचो विसर्जनम् विसर्जनम् देववीतये विसर्जनमिति वि देववीतये त्वा देववीतय इति देवरीतये त्वा गृह्णामि गृह्णाम्यद्रिः अद्रिरसि असि वानस्पत्यः वानस्पत्यः देवेभ्यः देवेभ्यो हव्यम् हव्यमम् सुषमि सुषमि शमिष्व सुषमीति सुषमी सूक्ष्ममि शमिश्वेषम् इषमा आवद वदोर्जम् ऊर्जमा आवद वदद्युमत् द्युमद्वदत द्युमदिति द्युमत् वदत वयम् वयम् सङ्घातम् सङ्घातम् जेवश्म सङ्घातमिति सङ्घातम् जेष्म वरुषवृद्धम् वर्षवृद्धमसि वर्षवृद्धमिति वर्षा वृद्धम् असि प्रति प्रतित्वा वर्षवृद्धम् वर्षवृद्धम् वेत्तो वरुषवृद्धमिति वरुषा वृद्धम् वेत्तुपरापूतम् परापूतकम् रक्षः परापूतमिति पराभूतम् रक्षः परापूताः पराभूता अरातयः पराभूता इति परापूताः परातयो रक्षसाम् रक्षसाम् भागः भागोऽसि असि वायुः वायुर्वः वो वा विविनक्तु विनक्तु वः सविता सविता हिरण्यपाणिः हिरण्यपाणिः प्रति हिरण्यपाणिरिति हिरण्यपाणिः प्रतिगृह्णातु गृह्णाद्वितिगृह्णातु अवधूतकम् रक्षः अवधूतमित्यवाधूतम् रक्षोऽवधूताः अवधूता अरातयः अवधूता इत्यवाधूताः अरातयोदित्याः अदित्यास्त्वग त्वगसि असि प्रति पृथिवी पृथिवी वेत्तु वेत्तुदिवः दिवा, दिवस्कम्भनिः स्कम्भनिरसि असि प्रति प्रदित्वादित्याः अदित्यास्त्वग् त्वग्वेत् वेत्तुधिषणा धिषणासि असि पर्वत्या पर्वत्या प्रति प्रदित्वादिवः दिवस्कम्भनिः स्कम्भनिर्वेत् दिवस वेत्तुधिषणा धिषणासि असि पार्वतेयी पार्वतेयी पार्वते प्रति प्रतित्वा त्वापर्वतिः पर्वतिर्वेत्तु वेत्तु देवस्य देवस्य त्वात् त्वा सवितुः सवितुः प्रसवे प्रसवे अश्विनाः प्रसव इति प्रासवे अश्विनार् बाहुभ्याम् बाहुभ्याम् पोष्णः बाहुभ्यामिति बाहोभ्याम् पोष्णाहस्ताभ्याम् हस्ताभ्यामधि अधिपपामि पपामि धान्यम् धान्यमसि असि धिनुहिनुहि देवान् देवान् प्राणाय प्राणायत्वा प्राणायेति प्रा अनाय त्वापानाय अपानायत्वा अपानायेत्यप अनाय त्वा व्यानाय व्यानायत्वा ज्यानायेति त्वादीर्घाम् दीर्घामनो अनुप्रसितिम् प्रसितिमायुषे प्रसितिमिति प्रासितिम् आयुषे धाम् धाम् सविता हिरण्यपाणिः हिरण्यपाणिः प्रति हिरण्यपाणिरिति हिरण्यपाणिः प्रतिगृह्णातु गृह्णात्विति गृह्णातु यच्छाप अपाग्ने अग्नेग्निम् अग्निमादम् आमादञ्जिः आमादमित्यामा अदम् युष्क्रव्यादम् क्रव्यादकम् सेधा क्रव्यादलीक्रव्या अदम् सेधा आदेवयजम् देवयजम् वः देवयजमिति दे दे देवायजम् वः निर्दग्धम् धं, निर्दग्धकम् रक्षः निर्दग्धमिति निः दग्धम् रक्षो निर्दग्धाः निर्दग्धा अरातयः निर्दग्धा इति दग्धाः अरातयो ध्रुवम् ध्रुवमसि असि पृथिवीम् पृथिवीम् दृगुम्ह दृगुहायोः आयुर्दृगुम्ह दृगुम्ह प्रजाम् प्रजान्द्रुगुम्ह प्रजामिति प्राजाम् दृगुम्ह सजातानिति स जातान् अस्मै यजमानाय यजमानाय परी पर्योह ओह धर्त्रम् धर्त्रमसि अस्यन्तरिक्षम् अन्तरिक्षम् नृगुम दृगुंह प्राणम् प्राणम् नृगुम्ह प्राणमिति प्रा अनम् दृगम्हापानम् अपानम् नृगुम्ह अपानमित्यपा अनम् दृगुम्ह सुजातानिति स जाता अस्मै यजमानाय यजमानाय परि पल्यूह ओह धरुणम् धरुणमसि असि दिवम् दिवम् दृगम्ह दृगम्ह चक्षुः चक्षुर्दृगम्ह दृगम्ह श्रोत्रम् श्रोत्रम् दृग्म्ह दृगम्ह सजातान् सजातानस्मै सुजातानिति स जातान् अस्मै यजमानाय यजमानाय परि पर्यूह ओहधर्म धर्मासि असि दिशः दिशो दृगुम्ह दृगुम्ह योनिम् योनिम् दृगम्ह दृगम्ह प्रजाम् प्रजाम् यजमानाय यजमानाय परि ऊहचितः चितस्थः सः प्रजाम् प्रजामस्मै प्रजामिति प्रजाम् अस्मै रयिम् रयिमस्मै अस्मै स जातान् सजातानस्मै सजातानिति स जातान् अस्मै यजमानाय यजमानाय परी पर्योह ओहभृगूणाम् तपसा तपसा तप्यध्वम् तदप्यध्वन्यानि यानि घर्मे घर्मे कपालानि कपालान्युपचिन्वन्ति उपचिन्वन्ति वेधसः उपचिन्वन्तीत्युपचिन्वन्ति वेधस इति वेधसः पोष्णस्तानि तान्यपि अपि व्रते व्रत इन्द्रवायू इन्द्रवायुवि इन्द्रवायू इति इन्द्रवायू विमुञ्चताम् मुञ्चतामिति मुञ्चताम् संवपामि वपामि सम् सं समापः आपो अद्भिः अद्भिरग्मत अद्भिरित्यद्भिः अग्मतसम् समोषधयः ओषधयोरसेन रसेनसम् सकम् रेवतीः रेवतीर्जगदीभिः जगदीभिर्मधुमतीः मधुमतीर्मधुमतीभिः मधुमतीरितिमधोमतिः मधुमतेभिः सृज्यध्वम् मधुमतेभिरितिमधोमतिभिः सृज्यध्वमद्भ्यः अद्भ्यः परि अध्येत्यभ्यः परिप्रजाताः प्रजातास्थ प्रजातारिप्राजाताः स्थसम् स मद्भिः अद्भ्यः प्रत्यध्वम् अभ्युरित्यतद्भिः प्रत्यध्वम् जनयत्यै जनयत्यै त्वा त्वासम् संयौमि यौम् यज्ञये अग्नये त्वा त्वा त्वाग्निसोमाभ्याम् अग्निशोमाभ्याम् मघस्य अग्निशोमाभ्यामित्यग्नी सोमाभ्याम् मठस्य शिरः शिरोऽसि असि घर्मः घर्मोऽसि असि विश्वायुः विश्वायुरु विश्वायुरिति विश्वायुः उरुप्रथस्व प्रथस्वोरु कुरुते ते यज्ञपतिः यज्ञपतिः पृथताम् यज्ञपतिरिति यज्ञापतिः त्वचम् त्वचम् गृह्णीष्व गृह्णीष्वान्तरितम् अन्तरितकम् रक्षः अन्तरितमित्यन्तः इतम् रक्षोन्तरिताः अन्तरिता अलातयः अन्तरिता इत्यन्तः इताः अलातयो देवः देवस्त्वा त्वा सविता श्रवयतु श्रवयतु वरिषिष्ठे अधि अधिनाके नाचेऽग्निः अग्निस्ते ते तनुवम् तनुभम् मा नाधि अधिधाक् हव्यगम् रक्षस्व रक्षस्व सम् सम् ब्रह्मणा ब्रह्मणा पृच्यस्व प्रत्यस्वैकताय स्वाहाद्विताय द्विताय स्वाहा स्वाहा त्रिताय त्रिताय स्वाहा स्वाहेति स्वाहा आददे गत इन्द्रस्य इन्द्रस्य बाहुः बाहुरसि असि दक्षिणः दक्षिणः सहस्रभृष्टिः सहस्रभृष्टिः शततेजाः सहस्रभृष्टिरितिसहस्रभृष्टिः शततेजा वायुः शततेजा इति शततेजाः वायुरसि असि तिग्मतेजाः तिग्मतेजाः तिग्मतेजा इति तिग्मातेजाः पृथिवी देवयजनि देवयजनीति देवयजनि ओषध्यास्ते ते मूलम् मूलम् मा हिगुंसिषम् इगुंसिषमपहतः अपहतो अररुः पृथिव्यै पृथिव्यै व्रजम् व्रजम् गच्छ गच्छ गोस्थानम् गोस्थानमिति गोस्थानम् वर्षतु ते ते द्योः द्यौर्वधानधानदेव देव सवितः ता, सवितः परमस्याम् परमस्याम् परावति परावति शतेन परावतीति परावति शतेन परावती परावती, पाशैः शैर्यः यो अस्मान् अस्मान्द्वेष्टि द्वेष्टियम् यम् च भयम् वयम् द्विष्मः द्विष्मस्तम् तमतः अतो मा मा मौगपहतः अवहतो ररुः अपहत इत्यपाहतः अररुः पृथिव्यै पृथिव्यै देवयजन्यै व्रजम् देवयजन्या इति देव यजन्यै व्रजम् गच्छ गच्छ गोस्थानम् गोस्थानम् वर्षतु गोस्थानमिति गोस्थानम् वर्षतु ते ते द्योः द्यौर्बधान प्रधानदेव देवसवितः सवितः परमस्याम् परमस्याम् परावति परावतिशतेन परावतीति परावति शतेनपाशीः पाशैर्यः योऽस्मान् अस्मान्वेष्टी द्वेष्टियम् किञ्च च वयम् वयम् द्विष्मः द्विष्मस्तम् तमतः अथो मा मा मोक् मौगपहतः अपहतो ररुः अपहतरित्यपाहतः अदेवयजनः अदेवयजनो व्रजम् अदेव यजन इत्यदेव यजनः वृजम् गच्छ गच्छ गोस्थानम् गोस्थानम् वर्षतु गोस्थानमिति गोस्थानम् वर्षतु ते ते द्योः योर्वधान वृधानदेव देवसवितः सवितः परमस्याम् परावति परमस्याम, परावतिशतेन परावतीति परावति शतेन पाशैः पाशैर्यः योऽस्मान् अस्मान्द्वेष्टि द्वेष्टियम् किञ्च च भयम् वयम् द्विष्मः ग्रीष्मस्तम् तमतः अगो मामौग् मौदररुः अररुस्ते ते दिवम् दिवम् मा मा स्कान् स्कानुवसवः वसवस्त्वा त्वापरि परिगृह्णन्तु गृह्णन्तु गायत्रेण गायत्रेण छन्दसा छन्दसा रुद्राः रुद्रास्त्वा त्वापरि परिगृह्णन्तु गृह्णन्तु त्रैष्टुभेन त्रैष्टुभेन छन्दसा छन्दसादित्याः आदित्यास्त्वा त्वापरि परिगृह्णन्तु गृह्णन्तु जागतेन जागतेन छन्दसा छन्दसा देवस्य देवस्य सवितुः सवितुः सवे सवे कर्म कर्म कृण्वन्ति कृण्वन्ति वेधसः वेधस ऋतम् ऋतमसि अस्य ऋतसदनम् ऋतसदनमसि ऋतसदनमित्यदासदनम् अस्य ऋतश्रीः ऋतश्रीरसि ऋतश्रीरित्यदा श्रीः असि धाः असि स्वधा स्वधासि स्वधेति स्वा अस्युर्वी उर्वी च चासि असि वस्वी वस्वी च चासि असि पुरा पुरा क्रूरस्य विसृपः विसृपो विलक्षिन् विसृप इति विसृपः विलक्षिन्नुदाय विरक्षिन्निति विरक्षिन् उदाय पृथिवीम् पृथिवीम् जीरदानुः जीरदानुर्याम् जीरदानुरिति यामैरयन् ऐरयन् चन्द्रमसि चन्द्रमसि स्वधाभिः स्वधाभिस्ताम् स्वधाभिरिति स्वाधाभिः ताम् धीरासः अनुदृश्य अनुदृश्य यजन्ते अनदृश्येत्यनोदृश्य प्रत्यष्टकम् वृक्षः प्रत्युष्टमिति प्रतीष्टम् अक्षः प्रत्युष्टाः प्रत्युष्टा अरातयः प्रत्युष्टा उष्टाः अरातयोनेः अग्नेऽर्वः वस्तेनिष्ठेन ते नििष्ठेन तेजसा तेजसानिः तपामि गोष्ठम् गोष्ठम् मा गोष्ठमिति गोष्ठम् वृक्षम् वाजिनम् वाजिनम् त्वा सपद्मसाहम् सपद्मसाहपुंसम् सपद्नसाहमिति सपद्ना साहम् सम्मार्ज्वि मार्ज्विवाचनम् वाचम् चक्षुः प्राणमिति प्रा चक्षुः श्रोत्रम् श्रोत्रम् प्रजा प्रजाम् योनिम् प्रजामिति योनिम् वा निरम् वृक्षम् वृक्षम् वाजिनी वाजिनीम् त्वा, त्वा सपत्नसाहीम् सपत्नसाहीगुंसम् सपत्नसाहीमिति सपत्नसाही सम्मार्ज्मि मार्ज्ञ्याशासानः आशासानः सौमनसम् आशासानेत्याशासानः सौमनसम् प्रजाम् प्रजागम् सौभाग्यम् प्रजामिति प्राजाम् सौभाग्यम् तनोम् तनोमिति तनोम् अग्नेरनुव्रता अनुव्रता, अनुव्रता भूत्वा अनुव्रतेत्यनुव्रता भूत्वा सम् सं, सन् नह्ये नह्ये सुकृताय सुकृतायकम् सुकृतायैति सुकृताय अमितिकम् सुप्रजसस्त्वा सुप्रजस इति सुप्रजसः अयगुम् सुपत्नीः सुपत्नीरुपा सुपत्नीरितिसौ पत्नीः उपसेदिमा सेदिमेति सेदिमा अग्ने सपत्नदम्भनम् सपत्नदम्भनमलब्धासः सपत्नदम्भनमिति सपत्नदम्भनम् अदब्धासो अदाभ्यम् अदाभ्यमित्यदाभ्यम् इमम् विष्यामि स्यामि वरुणस्य वरुणस्य पाशम् पाशय्यम् यमवर्ध्नीत यम अवध्नीतसभिता सविता सुकेतः सुकेत सुकेतः धातुश्च च योनौ सुकृतस्य सुकृतस्य लोके सुकृतस्येति सुकृतस्य लोके स्योनम् स्योनम् मेः मे सह सह पत्याः पत्याकरोमि करोमीति करोमि करो समायुषा आयुषासम् सम्प्रजया प्रजयासम् प्रजयेदि प्राजया समग्ने अग्ने वर्चसा वर्चसा पुनः पुनरिति सम्पत्नी पत्नीपत्या पत्याहम् अहम् गच्छे गच्छेसम् समात्मा आत्मा तनुवा तनुवा मम ममेति मम महीनाम् पयोसी अस्योषधीनाम् ओषधीनागुं रसः रसस्तस्य तस्य ते ते क्षीयमाणस्य निर्वपामि पपामि महीनाम् महीनाम् पयः पयोसि अस्योषधीनाम् ओषधीनागुम्रसः रसोदब्धेन अदब्धेन त्वा चक्षुषा चक्षुषा वा अवेक्षे यीक्षे सुप्रजास्ताय सुप्रजास्त्वाय तेजः सुप्रजास्तायेति सुप्रजाय तेजोऽसि असि तेजः तेजो नो अनुप्रा प्रेहिष्यग्निः अग्निस्ते ते तेजः तेजो मा मा विनैत् नैरग्नेः अग्नेर्जिह्वा जिह्वासि असि सुभोः सुभोर्देवानाम् सुभोरिति सो सुभो भोः देवानाम् धाम्ने धाम्ने धाम्ने देवेभ्यः धाम्ने धाम्न इति देवेभ्यो युजुषे इदुषे यजुषे भव इदुषे यजुष इति यदुषे इदुषे भव असि ज्योतिः ज्योतिरसि असि तेजः तेजोऽसि असि देवः देवो वः असविता सवितो उत्पुना तु पुना त्वच्छिद्रेण अच्छिद्रेण पवित्रेण पवित्रेण वसोः वसोः सूर्यस्य सूर्यस्य रश्मिभिः रश्मिभिः शुक्रम् रश्मिभिरिति रश्मीभिः शुक्रम् त्वा, त्वा शुक्रायाम् शुक्रायाम् धाम्ने धाम्ने धाम्ने धाम्ने देवेभ्यः धाम्ने धाम्नैति धाम्ने धाम्ने देवेभ्यो यदुषे ईदुषे यदुषे ईदृषे गृह्णामि यदुषे यजुषैति ईदुषे ईदृषे गृह्णामि ज्योतिः ज्योतिस्त्वा त्वार्ज्योतिषि ज्योतिष्यर्चिः अर्चिस्त्वा त्वार्चिषि अचिषि धाम्ने धाम्ने धाम्ने धाम्ने देवेभ्यः धाम्ने धाम्न इति धाम्ने धाम्ने देवेभ्यो यजुषे यजुषे यजुषे यजुषे गृह्णामि यजुषे यजुष इति यजुषे यजुषे गृह्णामीति गृह्णामि कृष्णोऽसि अस्याखरेष्ठः आखरेष्ठोग्नये आखरेष्ठ इत्याखरे स्थः अङ्गये एत्वा त्वा स्वाहा स्वाहा असि बर्हिषेः बर्हिषे त्वा त्वा स्वाहा स्वाहा बर्हिः असि सृग्भ्यः सुझ्या, सृग्भ्य स्वासृभ्य सुझ्यास्वा, इति सृगभ्यः त्वा स्वाहा स्वाहा दिवे द्वे त्वापृथिव्यै पृथिव्यै त्वा त्वा स्वधा स्वधा पितृभ्यः स्वधेति स्वाधा पितृभ्यमूर्क् पितृभ्य इति पितृभ्यः ऊर्भव भव बर्हिषद्भ्यः बर्हिषद्भ्य ऊर्जा बर्हिषद्भ्य इति गच्छत गच्छत विष्णोः विष्णो स्तूपः अस्योर्णाम्रतसम् ऊर्णाम्रतसम् त्वा ऊर्णाम्रतसमित्यूर्णाम्रतसम् त्वास्तृणामि स्तृणामि स्वासस्थम् श्वासस्थम् देवेभ्यः श्वासस्थमिति सो आसस्थम् गन्धर्वः गन्धर्वोऽसि असि विश्वावसुः विश्वावसुर्विश्वस्मात् विश्वावसुरिति विश्वावसुः विश्वस्मादीषतः ईषतो यजमानस्य यजमानस्य परिधिः परिधिरिडः परिधिरिति परीधिः इडईडितः ईडित इन्द्रस्य इन्द्रस्य बाहुः बाहुलसि असि दक्षिणः दक्षिणो यजमानस्य यजमानस्य परिधिः परिधिरिडः परिधिरिति परिधिः इडितः ईडितो मित्रावरुणौ त्वा मित्रावरुणाविति मित्रावरुणौ त्वोत्तरतः उत्तरतः परि उत्तरत इत्युक्तरतः परिधत्ताम् ध्रुवेण ध्रुवेण धर्मणा धर्मणा यजमानस्य यजमानस्य परिधिः परिधिरिडः परिधिरिति परिधिः इडितः ईडितः सूर्यस्त्वा पुरस्तात् पुरस्तात् पातु पातु कस्याः कस्याश्चित् चिदभिशस्याः अभिशस्त्या वीतिहोगोत्रम् अभिशस्त्या इत्यभिशस्याः वीतिहोगोत्रम् त्वा वीतिहोत्रमिति वीतिहोत्रम् त्वा कवेः कवे द्युमन्तम् द्युमन्त पुंसम् द्युमन्तमिति द्यो अमन्तम् समि धीमहि इति मह्यग्ने अग्ने बृहन्तम् बृहन्तमध्वरे अध्वरे विषः विशो यन्त्रे यन्त्रे स्थः यन्त्रे इति यन्त्रे स्थो वसूनाम् वसूनाङ्गम् हृद्राणाम् रुद्राणामादित्यानाम् आदित्या नामम् सदसि सदसि सीद सीदजुहूः जुहोरुपभृत् ध्रुवासी असि घृताची घृताचीनाम्ना नाम्ना प्रियेण प्रियेण नाम्ना नाम्ना प्रिये प्रिये सदसि सदसि सीदा सीदैताः एता असन् असदान् सुहृतस्य सुहृतस्य लोके सुहृतस्येति सुकृतस्य लोकेताः ता विष्णो विष्णो पाहि विष्णो इति विष्णो पाहि पाहि पाहि यज्ञम् यज्ञम् पाहि पाहि यज्ञपतिम् यज्ञपतिम् पाहि यज्ञपतिमिति यज्ञापतिम् पाहि माम् माञ्जनियम् यज्ञनियमिति यज्ञनियम् भुवनमसि असिविप्रथस्व प्रथस्वाग्ने अग्ने यष्टः यष्टरिदम् इदम् नमः नम इति नमः जुह्वा एहि इह्यग्निः अग्निस्त्वा त्वायति क्वयति देवयज्ञ्यायै देवयज्ञाया उपभृत् देवयज्ञाया इति देवयज्ञ्यायै उपहृदा उपभृदित्युपभृत् एहि इहि देवः देवस्त्वा समिता समिताह्वयति यति <Sess> देवयज्ञायै देवयज्ञाया अग्नाविष्णो देवयज्ञाया इति देवयज्ञायै अग्नाविष्णो मा अग्नाविष्णो इत्यग्ना विष्णोः मा वामव वाम अवक्रमिषम् क्रमिशम् विजिहाथाम् जिहाम् मामा जिहा मासम् मा, मा सन्ताप्तम् सं, तातल्लोकम् लोकम् मे मे लोककृतौ लोककृतौ कृणुतम् लोककृताविति लोककृतौ कृणुतम् विष्णोः विष्णोस्थानम् स्थानमसि असीतः इत इन्द्रः इन्द्रो अकृणोद् अकृणोद्वीर्याणि वीर्याणि समारभ्य समारभ्योऽध्वः समारभ्येति सम् आरभ्य ऊर्ध्वो अध्वरः अध्वरो दिविस्पृशम् दिविस्पृशमः दिविस्पृशमिति दिविस्पृशम् अहकृतो यज्ञः यज्ञो यज्ञपतेः यज्ञपतेरिन्द्रावान् यज्ञपतेरिति बृहद्भाः भाः पाहि पाहि अग्ने <branding> दुश्चरितात् दुश्चरितादा दुश्चरितादिति दुहोचरितात् आ मा सुचरिते सुचरिते भज सुचरित इति सूचरिते भज मखस्य मखस्य शिरः शिरोऽसि असि सम् सञ्ज्योतिषा ज्योतिषा ज्योतिः ज्योतिरङ्गाम् अङ्गामित्यङ्काम् वाजस्य माप्रसवेन प्रसवेनोवद्ग्राभेण प्रसवेनेति प्रासवेन उद्ग्राभेणोत् उद्ग्राभेणेत्युत् ग्राभेण उदग्रभीत् अग्रभीदित्यग्रभीत् अथा सपत्नाल् सपत्नागुम् इन्द्रः इन्द्रो मे मे निग्राभेण निग्राभेणाधराल् निग्राभेणेति निग्राभेण अधरागुम् अकः अखरित्यकः उद्ग्राभम् च उद्ग्राभमित्युद्ग्राभम् च निग्राभम् निग्राभम् च च ब्रह्म ब्रह्म देवाः देवा अवीवृधन् अथा सरत्नान् सरत्नानिन्द्राग्नी इन्द्राग्नि मे इन्द्राग्नी इति इन्द्र अग्नी मे विषोचीनान् शोचीनानवी यस्य ताम् अस्य तामित्यस्य ताम् असुभ्यस्त्वा वसुभ्य इति रुद्रेभ्यस्त्वा त्वादित्येभ्यः त्वादित्येभ्यस्त्वा त्वाक्तम् अक्तकम् रिहाणाः रिहाणा वियन्तु वियन्तु वयः प्रजाम् यो निम्मा मानिः निर्मृक्षम् वृक्षमा आप्यायन्ताम् त्यायन्तामापः आपवोषधयः ओषधयो मरुताम् मरुताम् पृषदयः पृषदयस्थ स्थलिवम् इवम् गच्छ गच्छततः ततो वृष्टिमा एरय ईरयेतीरय आयुष्पा अग्ने आयुष्पा इत्यायोः अग्नेसि अस्यायोः आयुर्मे मे पाहि पाहि चक्षुष्पाः चक्षुष्पा अग्ने चक्षुष्पा इति अग्नेसि असि चक्षुः मे पाहि पाहि ध्रुवा ध्रुवासि असियम् अम्बरिधिम् परिधिम् पर्यधत्थाः परिधिमिति परिधिम् पर्यधत्था अग्नेः पर्यधत्था इति परि अधत्थाः अग्ने देव देवपणिभिः पणिभिर्वीयमाणः पणिभिरिति पणिभिः बीयमाण इति बीयमाणः तन्त्रे तदेतरम् एतमनु एतम अनुजोषम् जोषम् भरामि भरामि नेत् ेषः एष त्वत् त्वदपचेतयातै अपचेतयातै यज्ञस्य अपचेतयाता इत्यपचेतयातै यज्ञस्य पाथः पाथ उप उपसरम् समितम् इतघम् सर्गस्रावभागाः सर्गस्रावभागास्थ सर्गस्रावभागा इति सर्गस्रावभागाः स्थेषाः इषा गृहन्तः प्रस्तरेष्ठाः प्रस्तरेष्ठा बर्हिषदः प्रस्तरेष्ठा इति प्रस्तरे स्थाः बर्हिषदश्च बर्हिषद इति बलिः सदः स वाचमभि अभिविश्वे विश्वे गृणन्तः गृणन्त आसद्य आसद्यास्मिन् आसद्येत्या सद्य अस्मिन्बर्हिषि बर्हिषि मादयध्वम् मादयध्वमग्नेः अग्नेर्वा वामपन्नगृहस्य अपन्नगृहस्य सदसि अपन्नगृहस्येत्यपन्नगृहस्य सदसि साधयामि साधयामि सुम्नाय सुम्नाय सुम्नि सुम्नि सुम्ने सुम्नि इति सुम्नि सुम्नेमा मा धत्तम् धत्तम् धुरि धुरि धुर्यौ धुर्यौ पातम् दब्धायो अदब्धायो शीततनो अदब्धायो इत्यदब्धा आयो अशीततनो पाहि अशीततनो इत्यशीततनो पाहि मा माद्य अद्य दिवः दिवः पाहि पाहि प्रसिद्ध्या इति प्रासिैः पाहि दुरिष्ट्यै दुरिष्ट्यै पाहि दुरुष्ट्या इति दुः इष्ट्यैः पाहि दुरद्मन्ये दुरद्मन्ये पाहि दुरद्मन्या इति दुः पाहि दुश्चरितात् दुश्चरितादविषम् दुश्चलितादिति दुः चरितात् अविषण्णः नः पितुम् पितुम् तृणु सुषदा योनिम् सुषदेति सु सदा यो निगृस्वाः स्वाः देवाः देवा गातुविदः गातुविदो गातुम् गातुविद गातुविदः गातुम् वित्त्वा वित्त्वा गातुम् गातुमित इत मनसस्पते अत इमम् नो देव देवदेवेषु देवेषु यज्ञम् यज्ञ स्वाहा स्वाहा वाचि वाचि स्वाहा धा इति धाः उभा वाम् वामिन्द्राग्नी इन्द्राग्नी आहुवध्यै इन्द्राग्नी इति इन्द्रा अग्नीः आहुवध्या उभा उभा राधसः सह सहमादयध्यै मादयद्ध्या इति मादयध्यैः उभा दातारौ दातारा विषाम् विशाखम् रयीणाम् रयीणामुभा सातये सातये हुवे हुवे वाम् हि त्रि भोरिदावत्तरा भोरिदावत्तरा वाम् आम् विजामातुः विजामातुरुता विजामातुरिति बीजामातुः उत वाघा स्यालाद् स्यालादिति स्यालात् अथा सोमस्य सोमस्य प्रयति प्रयति युवभ्याम् प्रयतीति प्रायति युवभ्यामिन्द्राग्नी युवभ्यामिति युवाभ्याम् इन्द्राग्नीस्त्वम् इन्द्राग्नी इतीन्द्र अग्निः सोमम् जनयामि जनयामि नव्यम् इन्द्रादिनव्यम् इन्द्राग्नीनवतिम् इन्द्राग्नि इतीन्द्राः नवतिम् पुरः पुरो दासपत्नीः दासपत्नीरधोनुतम् दासपत्नीरिति दासपत्नीः अधोनुतमित्यधोनुतम् साकमेकेन एकेन कर्मणा कर्मणेति कर्मणा शुचिन्नो नु स्वामम् स्वामम् नवजातम् नवजातमद्य नवजातमिति नवजातम् अद्येन्द्राग्नी इन्द्राग्निवृत्रहणा इन्द्राग्नी इतिन्द्रा वृत्रहणा द्विषेधा वृत्रहणेति वृत्राहना द्विषेधामिति द्विषेधा उभाहि वागुंसुहवा सुहवाजोहवीमि सुहवेदिसोहवा जहवीविता ता वाजुम् वाजगुम् सद्यः सद्यमुषरे उषरे धेष्ठा ध्येष्ठेतिधेष्ठा वयमो उक्त्वा तापथः पथस्पते पतेरथम् रथन्न वाजसातये वाजसातय इति धिये पूषन् पूषन्नयुज्महि अयुज्महीत्ययुज्महि पथस्पथः परिपतिम् पथस्पथ इति पथः पथः परिपतिम् वचस्या परिपतिमिति कामेन कृतः कृतो अभि अभ्यानट् अर्थमित्यर्कम् स नः नो रासत् रासच्छुरुधः शुरुधश्चन्द्राग्राः चन्द्राग्रा धियन्धियम् चन्द्राग्रा इति चन्द्रा अग्राह धियम् धियगुम् शीर्षधाति धियन्धियमिति धियम् धियम् शीर्षधाति प्रपोषा पोषेति पोषा क्षेत्रस्य पतिना पतिना वयम् पर्यबुम् हितेन तेनेव इव जयामसि जयामसीति जयामसि गामश्वम् अश्वम् पोषयित्नो पोषयित्वा आसः स्वनः नो मृडाति मृडातीदृशे ईदृश इतीदृशे क्षेत्रस्य पते पते मधुमन्दम् मधुमन्दमूर्मिम् मधुमन्तमिति मधो, मन्तं, मधो मन्तं, इव पयः पयो अस्मासु अस्मासु धुक्ष्व धुक्ष्वेति धुक्ष्वा मधुश्च्युतम् घृतम् मधुश्च्युतमिति मधुश्च्युतम् घृतमिव इव सुपोतम् सुपोतमिति सोपूतम् ऋतस्य नः पतयो मृडयन्तो मृडयन्दिति मृडयन्तो अग्ने नय नयसुपथा सुपथेति सुपथा ये अस्मान् अस्मान् विश्वानि विश्वानि देव देववजुनानि वजुनानि विद्वान् विद्वानिति विद्वान् योध्यस्मत् अस्मज्जुहुराणम् जुहुराणमेनः येनो भूयिष्ठाम् भूयिष्ठान्ते ते नम उक्तिम् नम उक्तिम् विधेम नम नमः उक्तिम् विधेमेति विधेम आ देवानामपि अपि पन्थाम् पन्थामगन्म अगण्म यत् यच्छक्नवाम शक्नवामदत् तदनु अनुप्रवोढुम् प्रवोढुमिति प्रावोढुम् अग्निर्विद्वान् विद्वान्सः विद्वान सेजात् यजात्सः सेत् इदो होदा होता, होता सह सोऽध्वरान् स हृतोन् ऋतोन्कल्पयाति कल्पयाति यद्वाहिष्ठम् वाहिष्ठम् तत् तदग्नये अग्नये बृहत् बृहदच्च अच्च विभावसो विभावसो इति इवत्वत महिषीव इव त्वत् त्वद्रयिः रयिस्त्वत् उदीरते ईरत इतीरते अग्ने त्वम् पारय पारया नव्यः नव्यो अस्मान् अस्मान् स्वस्तिभिः स्वस्तिभिरति स्वस्तिभिरिति अतिदुर्गाणि दुर्गाणि विश्वा दुर्गाणीति दृहोक्तानि विश्वेति विश्वा ओश्च च पृथ्वी पृथ्वी बहुला बहुला नः न उर्वी उर्वीभव भवा, भवा तोकाय तोकाय तनजाय तन संयोः योरिधियोः त्वमग्ने अग्ने व्रतपाः प्रतपा असि प्रतपा असि देवः देव आमर्त्येषु मर्त्येष्वा येत्या त्वञ यज्ञेषु ये ईड्य इति ड्यः यद्वः प्रविनाम प्रमिनाम व्रतानि प्रमिनामेति प्रविनाम व्रतानि विदुषाम् विदुषाम् देवाः देवा अविदुष्टरासः अविदुष्टरास इत्यविदुः तरासः अदिष्टत् तद्विश्वम् विश्वमा आप्रणाति प्रणाति विद्वान् विद्वान् एभिः एभिर्देवान् देवागम् ऋतुभिः ऋतुभिः कल्पयाति ऋतुभिर् ऋतोभिः कल्पयातीति कल्पयाति कृष्णयजुर्वेदे क्रमपाठे प्रथमकाण्डे प्रथमप्रश्नः समाप्तः ओ